श्रीमद्भागवद् महापुराणं चतुर्षि स्कन्द अष्टमोऽध्यायः नारदुवाच नाधुनाप्यौमानं ते सम्मानं वापि पुत्रकलक्षयाम कुमारस् कुमारस्य सक्तस्य क्रीडनादिशो विकल्पे विद्यमानेऽपि न हि पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः परितुष्येततस्तात् तान्मात्रेण पूरुष दैवोपसादितं यावद्भीक्षेश्वरगतिं बुध अथमन्मात्रोपदिष्टेन योगेनावरुरुस्वसि यत्प्रसादं शवै पुंसां दुराराध्यो मतो मम मुनियापद्मीं यस्या निसङ्गेनोरुजन्मभि नाभिदुर्मिगयन्तोऽपि तीव्रयोगसमाधिनाम् अतो निवर्ततामेष निर्बन्धस्तौ फल निष्फलः यति सति भवान् काले श्रीसां समुपस्थिते यस्य यद्दैवभितं सुखदुःखयोः आत्मानं तोषि तमस पारमिक्षते गुणादिकान्मुदं लिप्स्येद् अनुक्रोशं गुणाधमात् नैत्रीं समानादन्विच्छेन्न तापैरभिभूयते ध्रुवाच तोयं शमो भगवता सुखदुःखहतात्मनां दर्शितकृपया पुंसां दुर्दर्शोऽस्म द्विधेष् अथापि ये विनीतस्य छात्रं घोरमुपेयुष सृज्या दुर्वचो बाणैर्भिन्ने श्रयते हृदि पदं त्रिभुवन्नोन्कृष्टं जिगीषो साधुवर्त्ममे ब्रूह्यस्मन् पितृभिर्ब्रह्मन्नन्यैरप्यनधीक्षितं नूनं भवान् भगवतो योऽङ्गजपरमेशिन वितूदन्नटें तटें वीणां हितार्थं जगतोर्गवन् मैत्री उवाच इत्युदाधीतमाकर्ण्य भगवन्नारदासतां प्रीतप्रत्याहतं बालं तद्वाक्यम् अनुकम्पया नारदुवाच धन्याभिहितपन्था स वैनिश्रेयसस्य नेते भगवान् वासुदेवस्तं भजतत्प्रं प्रणं प्रणात्मनां धर्मार्थकाममोक्षाख्यं य इच्छेच्छेयात्मनः एकमेव हरेस्तत्र कारणं पादसेवनं तत्तातगच्छ भद्रं तेयं नायास्तटं शुचिः पुण्यं वधुवनं यत्र सान्निध्यं निद्यदा हरे नात्मानुसंवनं तस्मिन् कालिन्द्या शलिले शिवे कृत्वोचितानि सन्नात्मनकल्पितासनः प्राणायामेनं निवृत्तां त्राणेन्द्रियमनोमनं धनैर्विदस्याभिध्यायेन्मनसा गुरुना गुरं प्रसादाभिमुखं शश्वं प्रसन्नभदनेक्षणम् सुनाशं शुभ्रुवं चारुकपोलं सुरसुन्दरं तरुणं रमणीयाम् अरुगोष्ठे क्षणाधरं प्रतास्मिंश्रणं नृण्डं शरण्यं करुणाण्डवं श्रीवत्साङ्कं खनश्यामं पुरुषं वनमालिनं शङ्खचक्रकदापद्मैरभिव्यक्तचतुर्भुजम् किरीटिनं कुण्डलिनं केयूरवलयान्वितं कौसुभाभरणग्रीवं पीतकौशेयवाशिषं काञ्चीकलापपर्यस्तं न सत्काञ्चन नूपुरं दर्शनीयतमं शान्तं मनोरयन्वर्धनं पद्भ्यां नकुमणिश्रेण्यां बुलिसद्भ्यां समर्चितां हित्पद्मकर्लिकाधिष्णम् आक्राम्यात्मन्यवधिस्थितम् स्मयं मानमभिध्याये सानुरागावलोकनं नेतेनैकभूतेन ने मनसा वरदर्षभम् एवं भगवतो रूपं सुभद्रं ध्यायतो मन निवृत्या पर्यातॄणं सम्पन्नं निवर्तते जप्यस्य परमो गुह्य श्रूयतां मे निपात्मज यं सप्तरात्रं भवान् पश्यति खेचरान्